एवमुक्तः सः स्त्रीभिरीक्षितो मधुसूदनः ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ततो धनानि रत्नानि सभायाम् मधुसूदनः निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ततः सान्दीपनिम् पूर्वमुपस्पृष्ट्वा महायशाः ववन्दे पृथुतां राक्षः प्रीयमाणो महाभुजः तथाश्रुपरिपूर्णाक्षमानन्दगतचेतसं ववन्दे सह पितरं वासवानुजः रामकृष्णौ समाश्लिष्य सर्वे चान्धकवृष्णयः